अथ चतुर्थः सर्गः तत प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः श्रुत्वा मधुरभावम् च सुग्रीवम् मनसागतः भाव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः यदयम् कृत्यवान् प्राप्तः कृत्यम् चैतदुपागतम् ततः परमसंहृष्टो हनुमान् प्लवगोत्तमः प्रत्युवाच ततो वाक्यम् रामम् वाक्यविशारदः किमर्थम् तम् वनम् घोरम् पम्पाकारनमण्डितम् आगतः सानुजो दुर्गम् नानाव्यालमृगायुतम् तस्य तद्वचनम् श्रुत्वा लक्ष्मणो रामचोदितः आचचक्षे महात्मानम् रामम् दशरथात्मजम् राजा दशरथो नामद्युतिमाम् चातुर्वर्ण्यम् स्वधर्मेण नित्यमेवाभिपालयन् न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कञ्चन स तु अग्निष्टो भूतेषु पितामह इवापरः अग्निष्टोमादिभिर्यज्ञैरिष्टवाणाप्तदक्षिणैः तस्यायम् पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ज्येष दशरथ सुणवत्जलक्षण संयुक्त संयुक्त राज्यसंप्रष्ट मै वस्तु वने साधम भार्य महाभागतयागत वशी दिन क्षे महातेज प्रभय दिवाकर अहम सरो भ्राता गुणैर्दाग कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नामनामतः सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ऐश्वर्येण विहीनस्य वनवासे रतस्य च रक्षसापहृता भार्यारहिते कामरूपिणा तच्च न ज्ञायते रक्षः पत्नी येनास्य वाहृता धनुर्नामदितेः पुत्रः शापा द्राक्षसताङ्गतः आख्यातस्तेन सुग्रीवः समर्थो वा सज्ञास्यति महावीर्यस्तव भार्यापहारिणम् एवमुक्त्वा दनुस्वर्गम् भ्राजमानो दिवम् गतः एतत्ते सर्वमाख्यातम् याथातथ्येन पृच्छतः अहम् चैव च रामश्च सुग्रीवम् शरणम् गतौ एष वित्तानि प्राप्य चानुत्तमम् लोकनाथः पुरा भूत्वा सुग्रीवम् नाथमिच्छति सीता यस्य स्नुशाचासीत् शरण्यो धर्मवत्सलः तस्य पुत्रः शरण्यस्य सुग्रीवम् शरणम् गतः सर्वलोकस्य धर्मात्मा शरण्यः शरणम् पुरा गुरुर्मे राघवः सोऽयम् सुग्रीवम् शरणम् गतः यस्य प्रसादे सततम् प्रसीदे युरिमाः प्रजाः स रामो वानरेन्द्रस्य प्रसादमभिकाङ्क्षते येन सर्वगुणोपेताः पृथिव्याम् सर्वपार्थिवाः मानिताः सततम् राज्ञा सदा दशरथेन वै तस्यायम् पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः सुग्रीवम् वानरेन्द्रम् तु रामः शरणमागतः शोकाभिभूते रामे तु शोकार्ते शरणम् गते कर्तुमर्हति सुग्रीवः प्रसादम् सह यूथपैः सौमित्रं करुणं सौमित्रिम् करुणम् साश्रुपातनम् हनूमान् प्रत्युवाचेदम् वाक्यम् वाक्यविशारदः ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः द्रष्टव्या वा नरेन्द्रेण दर्शनमागताः स हि राज्याच्च कृतदारो वनेत्रस्तो भ्रात्रा विनिकृतो भृशम् करिष्यति स साहाय्यम् युवयोर्भास्करात्मजः सुग्रीवः सह परिमार्गणे इत्येवमुक्त्वा हनुमान् श्लक्ष्मम् मधुरया गिरा साधु गच्छावः सुग्रीवमिति राघवम् एवम् धर्मात्मा हनूमन्तम् सलक्ष्मणः प्रतिपूज्य यथा न्यायमिदम् प्रोवाच राघवम् कविः कथयते हृष्टो यथायम् मारुतात्मजः कृत्यवान् सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव प्रसन्नमुखवर्णश्च व्यक्तम् हृष्टश्च भाषते नानृतम् वक्ष्यते वीरो हनूमान् मारुतात्मजः ततः स सुमहाप्राज्ञो मारुतात्मजः जगामादाय तौ वीरौ हरिराजा राघव भिश्प्य वनरमूप्य तौ वीरौ जगाम कंजर है सो विपुलशा कप्रवीर पवन सुतक प्रहृ गिरीवर मुर्क्रम प्रयात सशुभ मह राम शे श्रीमद्राणे वाल आदि का्ये किन्धा चतुर्थ सर्ग